गौर्युवा च येषोति च फलोदयितान् बाल्ये धानाशयत्यः अग्रे किं कर्म कर्तेति न जाने मुनिसत्तमा साधुवेद्रुहखलाः अतोऽस्य कण्ठे किञ्चित्त्वम् रक्षार्थं बद्धुमर्हसि रक्षार्थम् बद्धुमर्हसि मुनिरुवाच Mm-hmm. विनायकममु दिग्बाहुमाखे युगे त्रेतायन्तु मयूरवाहनममुं षड्बाहुकम् युगभुजं रक्ताङ्गरागम् विभुं। तुल्ये तु विभुजम् सर्वदा नायकः शिखाम् पातु परमात्मा परात् परः अतिसुन्दरकायस्तु मस्तकं स महोत्कटः ललाटम् कश्यपः पातु भ्रूयुगन्तु महोदरः नयने पालचन्द्रस्तु गजास्य स्तोष्ठपल्लवौ Mm-hmm. tra स्तनौ विघ्नविनाशनः हृदयम् अङ्गुलीश्च लखां पातु पद्महस्तोरिदशनः कर्णकः कौबेर्याम् निधिपः पायादीशान्यामीशनन्दनः दिवाव्यादेकदन्तस्तु रात्रौ सन्ध्यासु सा सुरवेतालग्रहभूतपिशाचतः पाशाङ्कुशधरः पातु रजः सत्त्वतमस्मृतिः ज्ञानम् धर्मम् च लक्ष्मीम् च राज्य कीर्तिम् तथा कुलम् च ध्यानम् च गृहान् दारान्सुतान् सखीन् गजश्वम् विकटोऽवतु भूर्जपत्रे लिखितवेदम् यः कण्ठे धारयेत् सुधीः न जायते तस्य यक्षरक्षः तेयस्तु वज्रसारथनुर्भवेत् यात्राकाले पठेद्यस्तु निर्विघ्नेन फलम् लभेत् युद्धकाले पठेद्यस्तु मारणो विजयम् चाप्नुयादृतम् मारणोच्चाटनाकर्ष स्तम्भमोहनकर्मणि मवाप्नोति साधको नात्र संशयः एकविंशतिवारम् च पठेत् तावद् दिनानि यः कारागृहगतम् सज्जो राज्ञावज्जम् राजदर्शनवेलायाम् पठेदेतत् त्रिवारतः स राजानम् वशम् नीत्वा प्रकृतिश्च सभाम् जयेत् इदम् गणेशकवचम् कश्यपेन समीरितं मुग्गलाय जनाथ माण्डव्याय महर्षये मह्यम् सप्राह कृपया कवचम् सर्वसिद्धिदम् न भक्तिहीनाय देयं श्रद्धावते शुभम् यस्या नेन कृता रक्षा बाधास्य भवेत् राक्षसासुरवेतालदैत्यदानवसं भव श्रीगणेशाय नमः श्रीगणेशाय नमः श्रीगणेशाय नमः श्री